पुरुषुक्तम् श्रीगुरुभ्यो नमः हरिः ॐ तच्छयो रावणीमहे गातुयज्ञायं गातु यज्ञपतये गातु दैवी एष्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं दिगातु भेसजम् ण्णो अस्त्युद्धिपदे ऐं संचतुष्पदी ॐ शान्ते शान्ति शान्तिः हरिः ॐ सहस्रशिरसा पुरुषः सहस्राक्षसहस्रपां स्वभूमिं विश्वतो वित्वा अत्यतिस्थग्धसाङ्गुलम् पुरुष एवेदकं सर्वम् यद्भूतै यच्च भव्यम् उता मृतत्वस्येषानह यदन्नेनातिरोहति एतावानस्य महिमा अतो जाजागश्च पूरुषः पादोऽश्य विश्वाभूतानि त्रिपादस्यामृतं दिवि त्रिपादु उदयत्पुरुषः पादो ओ सिहाद्भवात्पुनः ततो विश्वं व्यत्रामत शासनानशने अभि तस्माद् विराजो विराजोऽधिपुरुषः स जातोऽत्यरिच्यतम् पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा देवायज्ञमतन्नत वसन्तो अस्यासीताज्ञम् ग्रीष्म यद्म शरद्धभिः सप्ताशासन्परिधयः त्रिसप्तसमिध कृताः देवा यद्यज्ञं तन्माना अवभ्रन् पुरुषं पशुं तैयज्ञं वर्षिषि प्रोक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्याऋषयश्च एवं तस्मात्यज्ञा सर्वभूतः सम्भृतं पृषदाज्यं वसन्धस्तागंश्चक्रीवायव्यानाम् आरण्यान् ग्राम्याश्चयें तस्मात् यज्ञास्सर्वभूतः ऋचसावानिजग्गिरें छन्दावंसिजग्गिरे तस्मात् यजुस्तस्मादजायत तस्मादस्वा अजायन्तम् एके चो भयादतः गावो हजगिरे तस्मा तस्मा आ जाता यत्पुरुषं व्यदधुः कतिधाव्यकल्पयन् व्यकल्पयन् मुखम् किमस्य को बाहू कावूरूपादा उच्येते ब्राह्मणोऽश्च मुखमासीत् कृतः उरु तदस्य यद्वैष्यः पध्यागं शुद्रोऽजायत चन्द्रमामनशो जातः चक्षुः सूर्योऽजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आशिदन्तरिक्षं चिष्णो द्यौषमवर्तत पद्भ्यां भूमिर्जुश्रोत्रा आत् तथा लोकागम् अकल्पयन् वेदाहमेतं पुरुषं महांतं आदित्यवर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्रधीरः नामानि कृत्वाभिवदन् यदास्ते ए धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्र तमेवं विद्वानमृत इह भवति नान्य पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देह यत्र पूर्वे साध्याः सन्ति देवाः अभ्यसम्भूत पृथिव्यैरसाच्च विश्वकर्मण समुवर्तताधि तस्वतष्टा विदध्रूपमेति तत्पुरुषस्य विश्वमा वेदाह विश्वमाजानमग्र्येदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमश परस्तां तमेवं विद्वानमृतेह्य भवति नान्यपन्था विद्यते जनाय प्रजापतिश्चरतिगर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनां पदमित्थन्ति मेधसः यो देवेभ्य आतपति यो देवाना आं पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचं ब्राह्मं जनयन्तः देवा अग्रेतरब्रुवन् यस्त्वैवं राम्भो विद्यां तस्य देवा असन्वशे ऐ एष्य ते लक्ष्मीश्च पत्यो ॐ अहोरात्रिपाश्वे नक्षत्राणि रूपं अश्विनो यात्तम् इष्टं मनीषाणा अमुं मनिषाणां सर्वं मनिषाणाम् ॐ शां ते शां ते शान्तिः हरिः तस्य श्रीरामकृष्णार्पणमस्तु